नाम सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्य रामशब्दस्य अर्थः नारायणशब्दस्य अर्थः कः इति वयं पश्यामः वयं जानीमः परमात्मनः बहूनि नामानि सन्ति प्रत्येकं नाम अतिसुन्दरं वर्तते अति मधुरं च वर्तते प्रत्येकं नाम यद्वर्तते तस्य तत्र कश्चन अर्थः तु अवश्यं भवति प्रत्येकं नाम अर्थपूर्णम् अर्थपूर्णमेव अस्ति यदा प, यदा नाम्नः अर्थं जानीमः तदानीं किं भवति इति चेत् तादृशसत्तां प्रति प्रीतिभावः प्रेमभावः वर् वर्धते परमात्मनः बहूनि नामानि सन्ति प्रत्येकं जीवः स्वस्य दृष्ट्या तस्य नामकरणं परमात्मनः नामकरणं करोति यदि कश्चन गजः अस्ति तस्य पुरतः एकः अन्धः मनुष्यः अस्ति तर्हि सः किमपि न पश्यति केवलं तत्र गजः अस्ति सः न जानाति स तद् गज अयं गजः इति सः न जानाति तर्हि केवलं तत्र पादमेव स्पृशति तत्र पादं स्पृशति तदानीं तत्र किं चिन्तयति इति चेत् तत्र ओ अयं स्तम्भः अस्ति इति सः चिन्तयितुं शक्नोति अथवा यत्र तत्र हस्तस्य ट्रङ्क् यदस्ति तं स्पृशति चेत् तदानीं सः सर्पः अस्ति इति शक्नोति यथा सः करोति तस्य कल्पना अनुरोधेन तत्र स्पृष्ट्वा सः चिन्तयति ओ एवं भवति अयं पदार्थः अयं पदार्थः इति यथा सः चिन्तयति एवं रीत्या मनुष्याः स्वकल्पनाम् आधारीकृत्य परमात्मनः नामकरणं मनुष्यः करोति तर्हि प्रत्येकं नामकरणस्य पृष्ठतः कश्चन विचारः अस्ति तस्य अर्थः च भवति तर्हि परमात्मनः यानि नामानि सन्ति तानि सर्वाणि बहु सम् समीचीनानि सन्ति प्रत्येकं नाम प्रत्येकं नाम्नः अर्थः तु अवश्यमस्ति तथापि यः साधकः अस्ति तेन किं स्मर्तव्यम् इति चेत् तत्र परमात्मनः स्मरणं कथम् अस्माभिः कर्तव्यम् इति चेत् इष्टमन्त्रम् इष्टमन्त्रं आधारीकृत्य परमात्मनः स्मरणं भव अस्माभिः कर्तव्यं यद्यपि परमात्मनः बहूनि नामानि सन्ति तथापि प्रत्येकं नाम्नः अर्थः च अस्ति तथापि परमात्मनः स्मरणम् इष्टमन्त्रेण सर्वदा कर्तव्यं तर्हि तदर्थम् ए एक, एका कथा वर्तते तस्य श्रावणात् पूर्वम् अत्र तत्र हन, हनु हनुमा हनुमान् यः अस्ति तस्य कथा हनुमान् तु बहु प्रसिद्धः भक्तः भक्तः अस्ति तस्य परमात्मा परमात्मानं प्रति दास्यभावः आसीत् इत्युक्ते कदाचित् परमात्मानं प्रति साक्यभावः भवितुमर्हति अथवा दास्यभावः भवितुमर्हति अर्जुनस्य कृष्णं प्रति साक्यभावः आसीत् अर्जुनः कृष्णं सखीरूपेण दृष्टवान् परन्तु हनुमान् परमात्मानं तत्र परमात्मनः दासः इव स्वं स्वीकृतवान् हनुमान् इत्युक्ते यथा परमात्मनः आज्ञा भवति तथा सः कार्यं करोति स्म तादृशभावः एव वीरभावः इत्यपि वयं वदामः दास्यभावः अथवा वीरभावः इति वदामः यता परमात्मा इच्छति ततैव अहं करोमि तदनुसारेण एव अहम् अग्रे गच्छामि तस्य उल्लङ्घनं न करोमि परमात्मनः अभिलाषायाः उल्लङ्घनं न करोमि हनुमान् सर्वदा रामः रामः रामः रामः रामः इत्येव सः वदति तर्हि कदाचित् केनचित् पृष्टं किमर्थं के भवान् सर्वदा रामः रामः रामः इत्येव वदति नारायणः नारायणः नारायणः इति किमर्थं न वदति भवान् इति केनचित् पृष्टं तदानीं तत्र यद्यपि नारायणः अपि परमात्मनः नाम रामः अपि परमात्मनः नाम द्वयमपि अतिसुन्दरम् एव तर्हि किमर्थं हनुमता एवं कृतं हनुमान् तस्य उत्तरम् एवं वदति तद श्लोकरूपेण अस्ति बहु सुन्दरमस्ति श्रीनाथे जानकीनाथे च भेदः परमात्मनि तथापि मम सर्वस्वः रामः कमललोचनः श्रीनाथे जानकीनाथे च अभेदः परमात्मनि श्रीनाथः इत्युक्ते श्रीः इत्युक्ते लक्ष्मीः लक्ष्म्याः पतिः यः अस्ति नारायणः विष्णुः सः अस्ति लक्ष्मीपतिः लक्ष्मीपतिः सः लक्ष्मीपतिः अर्थात् नारायणः जानकीनाथः अत्र नाथः इत्युक्ते स्वामी अथवा पतिः जानकीनाथः जानक्याः पतिः सः अस्ति रामः यद्यपि तत्र श्रीनाथः जानकीनाथः अनयोः अवेदः परमात्मनि रामः अपि परमात्मा जानकी श्रीनाथः अपि परमात्मा तर्हि द्वयोः पार्थक्यं नास्ति द्वयमपि एका सत्ता तथापि हनुमान् किं वदति इति चेत् तथापि मम सर्वस्वः रामः मम सर्वस्वं रामः एव अस्ति रामः कमललोचन कमललोचनः यस्य नयनं कमलम् एव अस्ति सः कमललोचनः रामः अहं नारायणं न ना जानामि अहं केवलं राममेव जानामि अर्थात् किं स्मर्तव्यम् इति चेत् यद्यपि परमात्मनः प्रत्येकं नाम बहु सुन्दरं वर्तते अर्थपूर्णं च वर्तते तथापि यथा हनुमता उक्तं तस्य कृते रामः एव रामः इति नाम एव श्रेष्ठं वर्तते इति तथैव प्रत्येकं साधकस्य तस्य इष्टमन्त्रम् एव इष्टमन्त्रः इष्टमन्त्रमेव श्रेष्ठं भवति इत्युक्ते प्रत्येकं वयं वयं परमात्मानं भिन्नभिन्नरूपेण वयं भिन्नभिन्ननाम स्वीकृत्य वयं स्मरामः तथापि तत्र व्यक्तिगतसम्बन्धः वैष्टिकः सम्बन्धः कदा भवति इति चेत् यदा परमात्मनः एकं नाम स्वीकृत्य स्मरणं भवति पुनः पुनः पुनः इष्टमन्त्रेण तदानीमेव सामीप्यं भवति तदानीमेव भक्तिः वर्धते यद्यपि दार्शनिकदृष्ट्या राम इति नाम नाम्नः नारायणः इति नाम्नः नयोः अभेदः वर्तते तथापि यथा हनुमता कृतम् एकं नाम वयं स्वीकृत्य अग्रे गच्छामः तदानीं तत्र बहु लाभदायकं भवति परमात्मनः एकं नाम इष्टमन्त्रं स्वीकृत्य सर्वदा स्मरणं यदा भवति तदानीं प्रीतिभावः भ व वर्धते भक्तिभावः वर्तते यथा तत्र मातुः माता वर्तते पुत्रः वर्तते तयोः मध्ये यादृशप्रीतिभावः सम्बन्धः वर्तते माता गृहे तस्य गृहे पत्नी अपि अस्ति तत्र कदाचित् सा भगिनी अपि भवति कदाचित् बहिः सा वैद्या अपि भवितुमर्हति यद्यपि तस्य तत्र किं तस्य बहूनि कार्याणि सन्ति प्रत्येकं स्थले तस्य भिन्नभिन्नभिन्ननाम वर्तते पत्नी भगिनी अथवा तत्र वैद्या इत्येवं रीत्या भिन्नभिन्नव्यवहाराः सन्ति तथापि तस्य पुत्रस्य कृते माता तु मा अथवा अम्मा इति यद्वयं यथा वयम् आह्वानं कुर्मः तदेव तत्र प्रीतिकरमस्ति पुत्रस्य कृते पुत्रः तु पत्नी इति न आह्वयति अथवा वैद्या इति न आह्वयति डाक्टर् इति न आह्वयति खलु पुत्रस्य कृते तु माता तु मा तस्य कृते माता इति शब्दः अथवा मा इति शब्दः एव बहु प्रीतिकरं वर्तते तथैव भक्तस्य कृते परमात्मनः एकं नाम श्रेष्ठं भवति तर्हि इदानीं रामः हनुमता हनुमान् इत्यस्य कृते रामः इति शब्दः अस्ति तस्य अर्थः कः रमः इति शब्दस्य त्रयः अर्थाः सन्ति एकं तु रमः इति शब्दः रम् इति धातुतः निष्पन्नः अस्ति रम् इति धातोः अर्थः अस्ति आनन्द आनन्दग्रहणम् आनन्दग्रहणम् एव रम् धातोः अर्थः तर्हि तत्र बहिः यदा वये वयं पर्वतं पश्यामः तदानीम् अतिरमणीयम् अस्ति इति वयम् अवगच्छामः अनुभवामः अतिरव रमणीयं दृष्ट्यम् इति वयं पश्यामः रमणीयं दृश्यं पश्यामः चेत् तदानीम् आनन्दम् अनुभवामः तर्हि रं धातोः अर्थः आनन्ददानं तर्हि रामः इति शब्दस्य अर्थः रमन्ते योगिनः यस्मिन् इति रामः रमन्ते योगिनः यस्मिन् योगि योगिजनाः यस् यस्मिन् आनन्दं स्वीकुर्वन्ति तदेव तादृशशब्दः तादृशपुरुषः तादृशसत्ता एव रामः अस्ति लोके तु जनाः भिन्नभिन्नवस्तुभ्यः सुखम् आनन्दं सुखं प्राप्नुवन्ति कस्यचित् कृत् क्रित कृते तत्र किमपि भोजनं रुचिकरम् अस्ति कस्यचित् कृते किमपि अन्यवस्तु आनन्दकरम् अस्ति परन्तु योगिनः यस्मिन् रमन्ते एव रामः तर्हि यस्मिन् योगिनः आनन्दं प्राप्नुवन्ति तादृशसत्ता रामः रमन्ते योगिनः यस्मिन् इति एकः अर्थः तर्हि इदानीं योगिनः इत्यत्र योगिः योगि योगः अस्य अस्मिन् वा इति योगी इति इनिप्रत्ययः यो योगिन् इति शब्दः तर्हि योगः इति शब्दस्य कः अर्थः रमन्ते योगिनः यस्मिन् योगः तर्हि संस्कृतभाषायां तत्र योगः शब्दः शब्दस्य निष्पादनार्थं धातुद्वयं वर्तते युज् इति एकः धातुः युञ्ज् इति अन्यः धातुः युज् युज् इत्युक्ते तत्र मेलनम् इत्यर्थः मेलनम् इति अर्थः इत्युक्ते वस्तुद्वयम् अस्ति चेत् तयोः मेलनम् एव युज् धातोः अर्थः टु एड् टु टु uh, इति अर्थः. तर्हि uh, युज् धातुतः यदा योगः इति शब्दः निष्पन्नः तदानीं पदार्थद्वयस्य मेलनं परन्तु uh, यद् यद्यपि पदार्थद्वयस्य मेलनं जातं तथापि तयोः पृथक् पृथक् अस्तित्वं भवति यथा तत्र शर्करा अस्ति अनन्तरं तत्र किमस्ति तत्र लवणमस्ति शर्करा अस्ति लवणमस्ति त तयोः मेलनं कुर्मः चेत् तदानीं शर्करायाः लवणस्य तु पृथक् अस्तित्वं वर्तते एव वयमवगन्तुं शक्नुमः लवणं किमस्ति शर्करा किम् शर्करा का अस्ति इति वयमवगन्तुं शक्नुमः तर्हि तादृशः अर्थः लभ्यते युज् धातुतः टु युनैट् इत्यर्थः तस्मात् अपि योगः शब्दः निष्पन्नः इदानीं युञ्ज् इति अन्यः धातुः अस्ति युञ्ज् तर्हि युञ्ज् धातोः कः अर्थः तस्मादपि योगः इति शब्दः निष्पद्यते युञ्ज् धातोः अर्थः अस्ति टु यूनिफै युञ्ज् धातोः अर्थः अस्ति टु यूनिफै इत्युक्ते इदानीं शर्करा अस्ति अपि च जलम् अस्ति यदा तयोः मेलनं भवति तदानीं शर्करायाः अस्तित्वं पृथक्तया न भवति तस्य मेलनं जायते जलेन सह तदनन्तरं केवलं जलमेव अवशिष्यते तादृश अर्थः ता अस्ति युञ्ज् इति धातोः तर्हि दा धातुद्वयं तत्र युज् धातुतः गै प्रत्ययं योजयामः चेत् योगः इति शब्दः निष्पद्यते युञ्ज्दातुतः गै प्रत्यं योजयामः चेत् तदा तत्रापि योगः इति शब्दः निष्पद्यते परन्तु तयोः द्वयोः अपि अर्थे भेदः वर्तते य अत्र योगनिष्यजीवने यः योगः इति शब्दः वर्तते तस्य अर्थः कः इति चेत् तस्य युञ्ज्दातुतः निष्पादनमस्ति योगः टु यूनिफै तत्र जीवात्मा परमात्मनोः संयोगः योगः यदा जीवात्मा परमात्मनोः योगः भवति तदानीं केवलं परमात्मा अवशिष्यते जीवात्मा नवशिष्यते जीवात्मा जीवात्मनः ऐ ऐक्यं भवति परमात्मनि इति योगशब्दः योगशब् योगः इत्युक्ते जीवात्मा परमात्मनोः संयोगः योगः जीवात्मा परमात्मनोः संयोगः यदा भवति तदानीं यूनिफिकेशन् भवति युनिफिकेशन् तयोः मेलनं यदा भवति तदानीं जीवात्मनः पृथक् न भवति यथा शर्करायाः पृथक् न भवति जले एवं जीवात्मनः पृथक् न भवति यदा तस्य मेलनं भवति परमात्मनि तत्र केवलं परमात्मा एव अवशिष्यते यथा केवलं जलम् अवशिष्यते तथा परमात्मा एव अवशिष्यते तादृशः अस्ति योगः संयोगः इति तत्र प्रथमः अर्थः रामशब्दस्य रमन्ते योगिनः यस्मिन् इति इदानीं द्वितीयः अर्थः कः रामशब्दस्य इति चेत् रावणस्य मरणं रामः द्वितीयः अर्थः अस्ति राम रामस्य रावणस्य मरणं तर्हि रावणं नाम रावणः नाम किं रावणः नाम रावणः नाम कः इति चेत् रावणः नाम कुवृत्तयः अस्मासु अस्माकं मनसि याः कुवृत्तयः सन्ति ताः एव रावणम् इति वयं वदामः इत्युक्ते जगति बहूनि वस्तूनि सन्ति बहवः बह्व्यः सत्ताः सन्ति कदाचित् यस्य एन वस्तुना येन वस्तुना अस्माकं सम्पर्कः भवति तदनुगुणं तस्माकं मनः मनसि प्रभावः भवति इदानीं कश्चन मनुष्यः अस्ति तेन सह वयं यदि पञ्चनिमेषपर्यन्तं वार्तालापं कुर्मः तदानीम् अस्माकम् आनन्दः जायते अस्माकं मनसि आनन्दः भवति सुखं भवति परन्तु कदाचित् एवमपि भवति तर्हि तादृशपुरुषः अस्ति येन सह यदा ये वार्तालापं कुर्मः सम्भाषणं कुर्मः तदानीम् अस्माकं मनसः अधोगतिः भवति तद् तादृशवार्तालापानन्तरं वयं चिन्तयामः ओ वार्तालापं कृतं किमर्थं वार्तालापः कृतः मया मम मनः मम मनसः अधोगतिः जाता इति अपि भवितुम् अर्हति अतः येन सः व्यवहारः तदनुगुणम् अस्माकं मनः उपरि गच्छति अथवा पतति तर्हि इदानीम् अत्र मनुष्यस्य मनसि बह्व्यः वृत्तयः सन्ति बह्व्यः वृत्तयः सन्ति ताः वृत्तयः भिन्नभिन्न दिक् दिक्षु ताः वृत्तयः गच्छन्ति दशदिशः दश दिशः सन्ति तर्हि पूर्वः पश्चिमः उत्तरः दक्षिणः ऊर्ध्वः ऊर्ध्वः अधः ईशानः वायुः अग्निः नैरुत्यः इति दशदिशः सन्ति तासु दिक्षु मनसि याः वृत्तयः सन्ति ताः वृत्तयः गच्छन्ति तर्हि म मनुष्यस्य मनसि याः कुवृत्तयः सन्ति ताः दशसु दिक्षु कार्यं कुर्वन्ति तर्हि रावणः नाम नाम कः इति चेत् यस्य दश शिराः स शिराः सन्ति रावणः इति तस्य दशशिराः सन्ति इत्युक्ते याः कुवृत्तयः दशसु दिक्षु गच्छन्ति ताः तेषां एव नामकरणमस्ति रावणः इति दशाननः इति दशानः इत्युक्ते दश आननानि यस्य सन्ति तर्हि प्रत्येकं मनुष्यस्य अन्ते एकः रावणः गुप्तरूपेण अस्ति दशाननः तर्हि तस्य नाशः अस्माभिः कर् नाशः कर्तव्यः रावणस्य नाशः कर्तव्यः कथं क्रियते इति चेत् साधनया साधनया क्रियते रावणस्य मरणं रावणस्य मरणं कथं भवति इति चेत् साधनया रावणस्य मरणम् एव रामः इत्युक्ते रावणस्य इत्यस्मात् रा इति अक्षरं स्वीकुर्मः अनन्तरं स्वीकु मरणम् इत्यस्मात् म इति स्वीकुर्मः तदानीं रामः इति भवति रामः तर्हि रामः नाम रावणस्य मरणम् इति द्वितीयः अर्थः तृतीयः अर्थः कः इति चेत् राति महीधरः रामः रातीमहीधरः रामः महीधरः इत्युक्ते महीं धरति इत्युक्ते भूमिं यः विश्वब्रह्माण्डं यः धरति सः रामः राति राति इत्युक्ते यः प्रकाशं ददाति यः प्रकाशं ददाति इति राति तर्हि अस्मिन् जगति सूर्यः प्रकाशं ददाति इति वयं चिन्तयामः चन्द्रः प्रकाशं ददति इति ददाति इति चिन्तयामः नक्षत्राणि प्रकाशं ददति इति चिन्तयामः परन्तु तेषु यः प्रकाशः अस्ति सः कुतः आगतः इति चेत् सः प्रकाशः तु परमात्मातः एव आगतः स्वतः तु सूर्ये प्रकाशः नास्ति स्वतः चन्द्रे प्रकाशः नास्ति स्वतः नक्षत्रेषु प्रकाशः नास्ति तर्हि अस्मिन् जगति बहु प्रज्वल प्रज्वलमानः उज्ज्वलमानः वस्तु प्रकाशमानः वस्तु कः अस्ति इति चेत् परमात्मा सः एव रामः सः एव रामः यः उज्ज्वलमानः अस्ति प्रकाशमानः अस्ति महीं धरति सः रामः तर्हि राति महीधरः राति इत्यस्मात् रा इति स्वीकुर्मः प्रकाशमानः महीधरः इत्यस्मात् म इति स्वीकुर्मः तर्हि रामः रातीमहीधरः रामः इति तृतीयः अर्थः तर्हि इदानीं रामशब्दस्य त्रयः अर्थाः सन्ति इति अस्माभिः दृष्टं तर्हि इदानीं तर्हि रामस्य अनन्तरं नारायणः इति नारायणः इति शब्दस्य कः अर्थः तर्हि नारायणः इत्यत्र नारस्य अयनम् इति षष्ठीतत्पुरुषसमासः नारस्य अयनं तर्हि नारः इति शब्दस्य कः अर्थः नारः इति शब्दस्य त्रयः अर्थः सन्ति नारः इत्युक्ते जलं नीरं नीरं तोयम् उदकं कम्बलम् इति जलम् इति अर्थः नारः इत्युक्ते जलम् इति अर्थः तर्हि तत्र यत्र नारस्य जलस्य अयनं यत्र जलस्य अयनम् इति नारायणः इति तत्र नारः इति तादृशशब्दस्य व्यवहारः भवितुमर्हति परन्तु अत्र नारायणः इत्यस्य तादृशः अर्थः नास्ति तर्हि नारः इति शब्दस्य अन्यः अपि अर्थः भवितुमर्हति नारः इत्युक्ते भक्तिः इत्यर्थः तर्हि जगति यः नारस्य वितरणं करोति नारः इत्युक्ते भक्तिः नारं ददाति भक्तिं ददाति यः भक्तिं ददाति सः नारदः नारदः इत्युक्ते तादृशसत्ता यः भक्तिं ददाति तत्र महर्षि नारदः आसीत् सः सर्वदा परमात्मनः कीर्तिं गायति तर्हि सः नारदः भक्तिं भक्तेः वर्धनं करोति सर्वत्र सर्वदा सः नारायणः नारायणः नारायणः इत्येवं वदति सः नारदः तर्हि अत्र तृतीयः अर्थः कः नारायणः इत्यस्य इति चेत् अत्र अयमर्थः एव अस्माकं नारायणशब्दस्य विवक्षितः अर्थः अस्मिन् प्रसङ्गे तर्हि नारः इत्युक्ते तत्र नार इति शब्दस्य परमप्रकृतिः इत्यर्थः मायापरमप्रकृतिः इत्यर्थः नारः तर्हि प परमाप्रकृत्याः आश्रयः कुत्र भवति कम् आश्रित्य परमाप्रकृति प्रकृतिः तिष्ठति इति चेत् शिवम् आश्रित्य तिष्ठति अथवा परमात्मानम् आश्रित्य परमाप्रकृतिः तिष्ठति अयनम् अयनं नाम निवासः इत्यर्थः यथा श्रीनिवासः इति वयं वदामः श्री इत्युक्ते श्रीः इत्युक्ते परमाप्रकृतिः परमाप्रकृतेः आश्रयः अथवा गृहं यत्र अस्ति सः एव नारायणः अत्र नारस्य अयनं प्रकृत्याः आश्रयः प्रकृत्याः आश्रयः कः इति चेत् परमपुरुषः परमात्मा तर्हि नारायणः इत्युक्ते परमपुरुषः परमात्मा पुरुषोत्तमः सः नारायणः इति वयं वदामः तर्हि अत्र रामशब्दस्य अर्थः नारायणशब्दस्य अर्थः किमर्थम् अस्माभिः इति चेत् यद्यपि परमात्मनः बहूनि नामानि सन्ति प्रत्येकं नाम अतिसुन्दरं वर्तते प्रत्येकं नाम्नः अर्थः वर्तते अर्थः यदा अर्थं महा तदानीं तादृशसत्तां प्रति प्रीतिभावः ममता वर्धते प्रेमभावः वर्दते, प्रेम वर्दते। तथापि तत्र परमात्मनः एकं नाम स्वीकृत्य आह्वानं भव आह्वानं कुर्मः चेत् तदानीं तत्र वैष्टिकः सम्बन्धः वर्दते तदेव इष्टमन्त्रं यस्य उच्चारणं भवति साधनायां अतः प्रत्येकं साधकस्य कृते तत्र बहुनाम नामनाम नाम, अथवा बहुषु नाम नामसु व्यवहारः न भवति तत्र साधकस्य कृते एकं नाम एव श्रेष्ठं नाम भवति तत्तु इष्टमन्त्रं यद् साधनायां साधकः दीक्षा दीक्षातः स्वीकरोति इति अत्र उक्त्वा अग्रे वयं गन्तुं शक्नुमः अत्र अस्माकं करपत्रं प्रति एकक्षणं मम एकक्षणम् अस्तु मम स्क्रीन् दृश्यते वा न भगिनि न दृश्यते अधुना दृश्यते वा अधुना पश्यतु दृश्यते खलु आम् अस्तु अस्तु समीचीनं तर्हि अत्र अस्माभिः किं दृष्टम् आसीत् इति चेत् अस्मिन् जगति मनुष्याः कथं जीवेयुः इति अत्र अस्माकं विषयः अस्ति अस्माभिः दृष्टं यत् तत्र मनुष्याणाम् आविर्भावः यदा सृष्टिचक्रे जायते तर्हि तस्य लक्ष्यमस्ति परमात्मनः प्राप्तिः एव तस्य लक्ष्यम् इति अत्र उक्तं तादृशलक्ष्यप्राप्त्यर्थं प्रकृत्या सह अस्माकं युद्धं भवति तर्हि युद्धे जयप्रापणार्थम् अस्माभिः किं कर्तव्यम् इति चेत् प्रथमतया प्रकृतेः नियमानां पालनम् अस्माभिः कर्तव्यम् अनन्तरं द्वितीयमस्ति साधना कर्तव्या अत्र जगति मनुष्याः भिन्नभिन्नमनुष्याः सन्ति केचन जनाः सन्ति ये तु प्रकृतेः नियमानां पालनं कुर्वन्ति अपि च अग्रगतिं प्राप्तुं साधनमपि कुर्वन्ति ते एव उत्तमजनाः तेषां तु सुलभेन परमात्मनः प्राप्तिः भवति परन्तु जगति अन्ये अपि जनाः सन्ति ये कदाचित् प्रकृतेः नियमानां पालनं कुर्वन्ति परन्तु साधनां न कुर्वन्ति परन्तु केचन जनाः प्रकृतेः नियमानामपि पालनं न कुर्वन्ति साधनमपि न कुर्वन्ति अपि च अन्ये जनाः प्रकृतेः पालनं न कुर्वन्ति साधनां न कुर्वन्ति अपि च अधोगत्यर्थमपि चेष्टां कुर्वन्ति तर्हि अत्र द्वितीयस्तरे तृतीयस्तरे चतुर्थस्तरे ये जनाः सन्ति ते जनाः पशुभ्यः अपि अधमतमाः सन्ति यतोहि तत्र मनुष्यजीवनस्य लक्ष्यस्य पूर्तिं एतो ते न कुर्वन्ति यतोहि तेषु सामर्थ्यं वर्तते तथापि पशुवत् व्यवहारं कुर्वन्ति अथवा पशुभ्यः अपि अधमरूपेण व्य। व्यवहारं कुर्वन्ति अतः ते मनुष्यरूपेण पशु पशवः सन्ति अथवा पशुभ्यः अधमतमाः सन्ति तर्हि यदा तादृशव्यवहारः भवति तदानीं तु तेषाम् अग्रगतिः न भवति जन्म यदा समाप्यते अग्रि अग्रिमजन्मनि तेषां मनः तु मनुष्यजीवं मनुष्यशरीरं प्राप्तुम् उचितं मनः न भवति इति कृत्वा तेषां मनुष्यशरीरमेव लग, न लभ्यते तेषां तेषां चैतन्यस्य यः प्रतिबिम्बः अस्ति तत्तु सम्यक्तया न भवति यतोहि मनः मनसः अधोगतिः भवति मनुष्यशरीरे तु तत्र मनसि चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवति यतोहि मनः वर्धितं वर्तते यदा मनः शुद्धं भवति तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टतया मनसि भवति परन्तु यदा मनसः अधोगतिः भवति तदानीं चैतन्यस्य प्रतिबिम्बः तत्र स्पष्टतया न भवितुमर्हति अतः अग्रिमजन् जन्मनि तेषां निम्नत निम्नस्तरे जन्म भवति यतोहि तेषां मनसः क्षयः जातः मनसः क्षयः जातः अतः ते जनाः पशुभ्यः सन्ति mm -hmm. इति अत्र अस्माभिः दृष्टं तर्हि इदानीं किञ्चित् अग्रे गच्छामः भगिनि अत्र पठति कर्मणां प्रतीक्रिया क्रियाः कर्मफलानि अनुभोक्तव्याः भवन्ति पूर्वाध्यार्शित आसि तुवा मुक्त सी कर्मक्रियामे अभोक्यानेके सी ये अस् प्रति कर्मफलाना दुखा पलायन अभिप्राए विविधा पद्धती प्रयतं तेषाम् प्रयत्नाः च कियत्पर्यन्तम् युक्तिपूर्वकाः तर्का तर्क च सन्ति अपि च प्रतिक्रिया अनुभवात कर्मफलात् पलायितुम् ते सफलाः भवितुम् अर्हन्ति वा इति अधः चर्च्यते इदानीं यत् कर्म भवति तस्य कर्मफलमपि भवति यत् कर्मफलम् अस्ति तस्य यत् कर्मफलस्य यत् फलम् तस्य जीव एव तस्य फलम् इत्यस्य यत् प्रभावः अस्ति जीव एव भो, भो, भोज्यति भुक्त, भु, भुक्तं भवति जीव जीवेन एव भोक्तव्यं भवति इति अस्ति कर्मफलस्य यत् भवति जीव शुभकर्म करोति तु शुभफलं पुण्यं भवति इति पापानि भवति तत् पापस्य इति तस्य भोक्तव्यं भवति तो इति यदि प्रतिक्रिया भवति कर्म कर्मणः तत् यदि वयम् इति इच्छाम् अहं किमपि पापम् इति कृतवती इति कर्म यत् मनुष्य न, न, न, न, न, न कर्तव्यम् इति यदि तस्य प्रायश्चित् भवति यत् तस्य कारणे अहं किमपि इति यज्ञ पूजां करा कारयामि इति तु मम पापानि इति च पलायनं भवेत् इति न भवति तस्य यत्किमपि अस्ति फलस्य कर, कर्मफलस्य भोग इति आगच्छति तस्य जीवेन एव भोक्तव्यं भवति न तु इति युक्तिपूर्वक तस्य क्षय न भवति इति अस्ति यतो हि इति उपासनाकाण्ड का उपासना कर्मकाण्डे ते वेदे इति दत्तम् अस्ति कथं करणीयम् इति तस्य पलायनं कथं भवति परन्तु इति बहु बहु क्लिश् क्लिष्करं भवति ते कर्मकण्डान् कर्मकाण्ड इति न इति अस्ति प्र प्रथम एव स्वस्य जीवन जीव जीवनस्य आचारणं प्र, पर्व प्रवर्तनीयम् इति कर्मफलस्य अनु आ, अनुभव तदनन्तरम् आगच्छति तस्य अनुभव सुस्थं भवेति इति हा भगिनी समीचीनम् अयं विषयः महान विषयः अस्ति इत्युक्ते प्रत्येकं कर्म यद्वयं कुर्मः तस्य तु प्रतिक्रिया अवश्यमेव भवति येन पुरुषेण तद् कर्म कृतं तद् सा प्रतिक्रिया अनुभोक्तव्या अन्येन तु अनुभोक्तुं न शक्यते तथापि मनुष्याः किं कुर्वन्ति इति चेत् बहु प्रयासं कुर्वन्ति कर्मफलान् फलस्य निवारणार्थं यदि तत्र पापकर्म पूर्वं कृतं तस्य यद् कर्मफलं भवति दुःखरूपेण तस्य निवारणार्थं बहु प्रयासं कुर्वन्ति ज्योतिषः समीपे गच्छन्ति हस्तं प्रदर्शयन्ति नक्षत्राणां पठनं कुर्वन्ति अध्ययनं कुर्वन्ति एतत् सर्वं कुर्वन्ति महान् तत्र महान् प्रयासः भवति तत्र कर्मफलानां निवारणार्थं तर्हि तस्य विषये एव इतोपि अग्रे दत्तमस्ति इदानीं पश्यामः पठति वा भगिनि अस्तु ग्रहशान्तिद्वारा प्रभावं निश् भावीकृत्य अपि च पश्चात् निष्प्रभावी निष्प्रभावीकृत्य अपि च पश्चात् पश्चात्तापार्थं प्रायश्चितार्थं बलिदानस्य संस्कारैः स्वकर्मणां परिणामात् पलायितुं समर्थाः इति बहवः मन्यन्ते अयं विश्वासः सम्यक् नास्ति यतः प्रकृतिनियमानुसारं प्रत्येकं कर्मणः प्रतिक्रियाः प्रतिक्रिया अनुसरति एव प्रतिक्रियाभिः मनः स्वस्य सामान्यतावस्थां पुनः प्राप्नु प्राप्नुयात् प्रकृतेः अयम् नियमः अस्ति इमं नियमं न कश्चित् प्रतियुक् परितयुक्तम् परित्यक्तुं परित्यक्तुं परित्यक्तुम् परित्यक्तुं शक्नोति परन्तु प्रतिक्रियाणां वेगस्यः वा मन्दगतिः वा सम्भवति येन मनः पुनः सामान्यताम् प्राप्नुयात् यथा उदाहरणत्वेन या, या प्रतिक्रिया एकमासम् यावत् स्वीकुर्वन्ति पुनः मनसि सामान्यताम् आनयितुं ताः तन्त्रस्य साहाय्येन प्रतिक्रिया वेगं त्वरयित्वा अथवा कृत्वा कृवा दिने, अथवा वर्षे संपन्न भेयु परन्तु तरह प्रतिक्रिया निराकरणं कदापि न संभवती कचन शतका ऋण स्वीको मसाभ्यंतरे तदव धन तेन प्रतिदात प्रतिबंध वर्त धन सेपण अर्पणयस्य नियमं त्यक्त्वा एकवर्षं वा वर्षद्वयं वा ऋणस्य अवधिं वर्धयितुं ऋणदातारं प्रेरयितुं शक्यते धनस्य प्रत्यर्पणस्य अवधिं विस्तारयितुं शक्यते परन्तु धनस्य प्रत्यर्पणात् पलायितुं न शक्यते तथैव यस्याः व्यक्तेः रेखायाम् Uh, पञ्चाधिक एकशतं रूप्यकाणां ऋणं भवति सः व्यक्ति ऋणस्य नियमानुसारं प्रत्येकं दिने पञ्चरूप्यकाणां पर्यन्तम् एकस्मिन् मासे सर्वं धनं व्ययीकर्तुं शक्नोति सा व्यक्ति सर्वाणि पञ्चाधिक एकशतं रूप्यकाश पञ्चाशत् अधिक uh, पञ्चादश फिफ्टीन् भवति अस्तु पञ्चाशत् पञ्चाशत् अधिकम् एकशतम् रूप्यकाणि एकस्मिन् दिने व्ययितुम् अर्हति अथवा मूलनियमम् मूलनियमम् अनुसृत्य धनम् व्ययितुम् एकमासपर्यन्तम् स्वीकर्तुम् शक्नोति धनम् केवलम् निक्षेपकेण एव उपयुज्यते किं वा सः एकस्मिन् दिने वा मासे वा करोति भग्निपङ्क्तिष्यं पठामि प्रतिपादनं करोमि mm -hmm. भवता गृहशान्तिद्वारा नक्षत्राणां प्रभावं निष्प्रभावीकृत्य अपि च पश्य अस्तु ये अस्माकं यथा पूर्वं भवती उक्तवती आ, कर्मस्य या प्रतिक्रिया भवति तत् निवारणार्थं मनुष्य बहवः प्रयासं करोति नक्षत्राणां प्रभावः किम् अस्ति तस्य निवारणार्थं किं पश्चात् पश्चात्ता कर, कर्तव्यं का क्रिया कर्तव्यं बलिदा का बलि दत्तं दा, का, का, वा दान्य इति दानं कर्तव्यं स्वकर्मणा परिणामात् फलायितुं समर्था इति बहवः मन्यन्ते इति यत् स्वकर् अस्माकं कर्मणा वयं कुर्मः तेषां प्रतिक्रियायाः ये फलम् अस्ति तस्मात् त्यक्तुम् इति ये वयं बहवः प्रयासं कुर्मः तस्य परिणामं परिमाणं वयं न भोक्तुम् इच्छामः किन्तु इत्यस्य पलायनं कर्तुम् इति बहवः भिन्न भिन्नानि भिन्न भिन्नप्रयासं कुर्मः किन्तु इति न भवति यत् संस्कारः भवति तत् एव प्रतिक्रिया भवति तत् संस्काररूपेण आगच्छति अयं विश्वासः सम्यक् नास्ति यत् प्रकृतिनियमानुसरणं प्रत्येककर्मण प्रतिक्रियानुसरति सो प्रत्येककर्मणस्य प्रतिक्रिया तस्य अनुसरणं तस्य फलभोग भवति प्रतिक्रियाभिः मनः स्वस्य सामान्यतः सामान्यतया अवस्थां पुनः प्राप्नुयात् इति पुनः यत् प्रतिक्रियायाः प्रतिक्रिया, प्रतिक्रिया भवति तस्य यत् भवत् यत्किमपि तस्य फलम् अस्ति तत् भोक्तुं भोक्तव्यम् एव भवति तस्य अनेन ये प्रयासं वयं कुर्मः तेन किञ्चित् समयपर्यन्तम् इति तस्य प्रभाव इति अपगच्छति किन्तु पुनः तस्य प्रभावः पुनः उद्भव, उद्भवति प्रकृतेः अयं नियमस्ति इमं नियम न कश्चित् परित्य परित्यक्तुं शक्नोति यत् कर्म अस्ति तस्य प्रतिक्रिया या कर्मफल जीव स्वयमेव स्वयमेव तस्य स्वयमेव सहति न कोऽपि न अन्यं प्रति इति दातुं शक्नोति इति अन्यै अन्यस्मै न दातुं शक्नोति परन्तु प्रतिक्रियायां वेगस्य त्वरगतिः या मन्दगति वा सम्भवति येन मनः पुनः सामान्यतां प्राप्नुयात् किन्तु यत् प्रतिक्रिया भवति तत् कर्मफल तस्य यत् एफेक्ट् अस्ति इति मन्दगति वा त्वरगति तस्य यत् फलस्य समाधानं झटिति भवे वा किञ्चित् कालन् कालानन्तरं भवेत् किञ्चित् नूतन नु, अग्रिमे जर्मनी भवेत् इति तस्य इति ति नियमः नास्ति किन्तु इति जीवे जीव एव तस्य भोगं जीव जीवेन एव तस्य भोगं स्वीकर्तव्यं भवति इति अस्ति उदाहरणमस्ति प्रतिक्रिया एकमासं यावत् स्वीकुर्वन्ति पुनः मनसि सामान्यताम् आनयितुम् ता तन्त्रस्य साहाय्येन प्रतिक्रियावेगं त्वरित्वा अथवा मन्दं कृत्वा एकस्मिन् दिने अथवा वर्षे सम्पन्ना भवेयुः इतिहं यदि यदि तन्त्र याति कोऽपि नूतन रीति इति यदि स्वीकृत्य प्रतिक्रियाया यत् प्रभावः अस्ति तत् वयम् एकमासं वा एकवर्षं पर्यन्तं तस्य फलं स्थगितुं कुर्मः किन्तु पुनः तत् उद्भवति इति अहम् अवगच्छामि किमस्ति इति अहम् अवगच्छामि इत्यस्य वाक्यस्य अर्थ परन्तु तस्याः प्रतिक्रियायाः सर्वथा निराकरणं कदापि न भवति कदापि वयं यत् प्रतिक्रिया अस्माभिः भोक्तव्यं भवति इत्यस्य निर्वृत्तिः न भवति कश्चन यथा उदाहरणमस्ति कः शत uh, uh, पञ्चाशत् अधिक एकशतं रूप्यकाणि ऋणरूपेण यदि स्वीकरोति तत् तस्य प्र प्रति दातव्यं भवति एव अद्य uh, uh, uh, किञ्चित् काले एक एकमासे वा एक एकवर्षे इति दत् दातव्यम् इति न भवति किन्तु सः कदापि इति दत्तव्यं दातव्यं यत्कि किमपि द्वयद्वयं यस्मात् ऋणम् इति स स्वीकरोति द्वयो मध्ये यत् उक्ति भवति ऋणस्य अवधि कियत् पर्यन्तं भवति इति पूर्तिः यदि न करोति तस्य तस्य भोग तस्य यः स्वीकरोति तस्य भोगतः अनेन स्वीकर्तुं भवति तस्य पलायितुं न शक्नोति इति अस्ति साधु आमाम् आमां आम भवती अवगतवती भवती अवगतवती इत्युक्ते अत्र प्रत्येकं कर्मणः कर्मफलानि सन्ति खलु परन्तु जनाः किं कुर्वन्ति इति चेत् तस्य कर्मफलानां निवारणार्थं प्रयत्नं कुर्वन्ति तदर्थं ते किं कुर्वन्ति इति चेत् तत्र कदाचित् यज्ञं कुर्वन्ति कदाचित् य तन्त्रस्य प्रयोगं कुर्वन्ति कदाचित् ज्योतिषस्य समीपं गच्छति कदाचित् हस्तं प्रदर्शयन्ति इत्येवं रीत्या भिन्नभिन्नरूपेण ते प्रयत्नं कुर्वन्ति कर्मफलानां कर्मफलात् कर्मफलद्वारा दुःखस्य निवारणार्थं प्रयत्नं कुर्वन्ति सर्वे तु सुखम् इच्छन्ति अतः दुःखस्य निवारणार्थं ते प्रयत्नं कुर्वन्ति तर्हि अत्र चेत् यद्यपि जनाः प्रयत्नं कुर्वन्ति परन्तु सम्पूर्णतया कर्मफलानां निवारणं न शक्यते तन्त्रद्वारा कर्मफलस्य वेगः यः वेगः अस्ति शीघ्रं भवति वा मन्दरूपेण भवति तादृश कालस्य कालस्य एव कालस्य परिवर्तनं शक्यते इत्युक्ते शीघ्रं तस्य अनुभवः भवितुमर्हति तत्र तन्त्ररूपेण अथवा किञ्चित् मन्दं मन्दं भवितुमर्हति तावदेव वयं कर्तुं शक्नुमः परन्तु सम्पूर्णतया निवारयितुं न शक्नुमः यतोहि अत्र वयम् अत्र किम् अवगन्तव्यम् इति चेत् कश्चन पुरुषः किमर्थं तत्र कर्मफलम् अनुभवति इति चेत् तत्तु इदं जगत् अस्मकं अस्माकं तत्र कक्षा अस्ति यत्र वयं विश्वविद्यालयः अस्ति यत्र वयं पाठम् अवगच्छामः यद् अनुचितं कृतं तादृशं पुनः मया न कर्तव्यम् इति तादृशं क तादृशं कथं वयं तादृश अध्ययनं कदा कदा भवति इति चेत् यदा कर्मबल कर्मफलद्वारा एव भवति परमात्मा तु अस्माकं हितकारी एव अस्ति अस्माकं हितमेव इच्छति अस्मान् दण्डयितुं न इच्छति वस्तुतः अस्माकं हितम् इच्छति परन्तु किं किमर्थम् इति चेत् अस्माकं मनः मनसः अधोगतिः भवति यदा अनुचितं कर्म कुकर्म कुर्मः तदानीं मनः अधोग अधो पतति अधोगमनं भवति तर्हि तादृशमनसः साम्यावस्था कदा भवति इति चेत् कर्मफलद्वारा एव भवति यदा कर्मफलस्य अनुभवः भवति तदानीं मनः पुनः साम्यावस्थां प्राप्नोति इत्युक्ते तत् तदेव अत्र उदाहरणरूपेण दत्तं यदा मया ऋणरूपेण धनं स्वीकरोमि सहस्ररूप्यकाणि स्वीकरोमि इति चिन्तयतु तर्हि तत्र नियमानुसारं तत्र वर्षद्वये मया दातव्यं धनं दातव्यं परन्तु अहं किं करोमि इति चेत् प्रत्येकं मासे किञ्चित् धनं ददामि चेत् तदानीं मम तादृशवेदना न भवति यतोहि अहं किञ्चित् किञ्चित् एव ददामि एक एक एकवारम् एव सर्वं ददामि चेत् मम क्लेशः भवितुम् अर्हति परन्तु किञ्चित् किञ्चित् ददामि चेत् तदानीं प्रायः क्लेशः तावान् न भवति तत् क्लेशः तु सर्वत्र स्प्रेड् भवति एवं रीत्या यदा ज्योतिषः समीपे गच्छामः वा अथवा गृहशान्तिं कुर्महा वा यत्किमपि कुर्मः तेन किं भवति इति चेत् सम्पूर्णतया कर्मफलस्य निवारणं न भवति परन्तु यादृशवेगेन अस्माभिः सामान्यतया अनुभूयते तादृशवेगः न भवति कदाचित् मन्दरूपेण भवति कदा कदाचित् झटिति भवति इति तावदेव वयं कर्तुं शक्नुमः परन्तु किम् अवगन्तव्यम् इति चेत् एतादृशरीत्या सम्पूर्णतया कर्मफलानां निवारणं न शक्यते येन कर्म तेन फलम् अनुभोक्तव्यम् एव अयमेव प्रकृतेः नियमः तस्य तु भङ्गः न भवति परन्तु यः योगनिश्च सः व्यस्तः अस्ति सः योगनिष्ठजीवने अस्ति सः साधनां करोति तदानीं तस्य कृते किं भवति इति चेत् सः तु इदानीं साधकः अभवत् तर्हि तर्हि तस्य कृते यानि पूर्वजन्मानि कर्माणि कृतानि अथवा अस्मिन् जन्मनि एव यानि कर्माणि कृतानि तस्य फलानि सः योगी शीघ्रतया अनुभवति शीघ्रतया अनुभवति अपि च पूर्वजन्मनि यानि कर्माणि कृतानि तादृशकर्माणां हरणं भवति हरिः तादृशकर्मणां हरणं करोति अतः एव सः हरिः हरिः हरिः अस्ति सः अस्माकं संस्कारणं चौर्यं करोति नारायणः अस्माकं संस्काराणां चौर्यं करोति तर्हि यः साधकः अस्ति यस्य अन्तचक्षुः उद्घाटितः अस्ति यः तीव्ररीत्या साधनां करोति तस्य कर्मफलानाम् अनुभवः झटिति एव भवति तर्हि ये जनाः किमपि साधकाः न सन्ति तर्हि तेषां कृते तु किं भवति इति चेत् संस्काराः भवन्ति अतः कर्मफलानाम् अनुभवः तु भवति एव तेभ्यः निवारणं न शक्यते एव तेभ्यः निवारणं कदापि न शक्यते इति अवगन्तव्यं केवलं तत्र कालस्य शीघ्ररूपेण भवितुमर्हति अथवा मन्दरूपेण भवितुम् अर्हति तावदेव वयं कर्तुं शक्नुमः अन्यमार्गेण अत्र वाक्ये क्लेशः आसीत् भगिनी कुत्रचित् भवत्याः तन्त्रस्य सहायेन प्रतिक्रिया वेगं त्वरयितुम् अथवा मन्दं कृत्वा तत्र प्रतिक्रियायाः कर्मफलानां स्वरणं भवितुमर्हति अथवा मन्दरूपेण भवितुमर्हति तत्तु तन्त्रद्वारा तन्त्रद्वारा इत्युक्ते ज्योतिषद्वारा ग्रहशान्तिद्वारा यज्ञद्वारा यत्किमपि भवतु हा अस्तु अग्रे भगिनि अस्तु यथा पूर्व पूर्वोक्ताभ्यां पूर्वोक्ताभ्याम् उदाहरण उदाहरणाम् उदाहरणाभ्यां तांत्रिभ्या प्रतिक्रिया अवस्था पिवर्तयुम शक्य है परंतु प्रतिक्रिया अव अथवा भाग्यम निवार शक्य कर्मफल स्वय कर्माण प्रतिक्रिया व्यक्तिना यथा सम्भवं केवलं प्रतिक्रियायां वेगः मन्दं कृत्वा अथवा त्वरित्वा एकस्मिन् समये दुःखस्य कुत्र अस्ति यथा सम्भवं केवलं प्रतिक्रियाणां वेगः मन्दं कृत्वा अथवा त्वरयित्वा अस्तु त्वरयित्वा एक समय तीव्रता न्यूनीकर् वर्धय शतूप्यपण से उत्कृष्ट भविम अथवा तहती मानसिकपीड़ा अ परंतु यदि सामना राशि अन प्रति अनेकेशानीड़ा न अभूय दुख से अवधि वर्धते अच्छा दुख से तीव्रता न अभूयते तथा चिहशातिणा अर्थात नक्षत्राण प्रभाव निष्प्रभावी प्रतिक्रिया कर्मलाना अभवृत अथवा निधि केनचित दोषपूर्ण निष्कर्ष क्रिय उदाह क्युष्ट भविष्य काल से पटिस्ंग से मानसिक दुखम सोव्यंती ज्ञाते तरी ग्रहशातिहाय ंग निवार शक्य परंतु मन सिख दुख से दूरीकर् शक्य लघु घटा घटना बाधा दीर्घका प्रसारि शक्य स्म यहां पुष्स् हस्त भिन्न सै पश्चा सूग् रुग्ण भ भागेश अभवतीवशा दुख प्राप्त मात्रा सामनम नवती अस्मा पूर्वोदाह प्रति गह चेत अच्छा अर्थ होती यहाँ ऋण अल्पभागेश प्रति अर्पणीयं यावत् तेन पूर्णशतं न, न परिशोधयति अत्र एकशतरूप्यकाणां ऋणस्य प्रति अर्पणं बाहुभङ्गात् जायमानस्य मानसिकदुःखस्य प्रतिनिधिः अस्ति ऋणम् एकेन भागेन समापनीयम् आसीत् परन्तु अर्धमरणस्य चाटुवचने अधमरणस्य अधमरणस्य अधमरणः इत्युक्ते अस्तु ऋणं स्वीकरोतवान् अस्तु चाटुवचनेन इत्युक्ते किं चाटु इति चाटु इत्युक्ते क्लेवर् अस्तु चाटुवचनेन सङ्कल्पेन च अर्थात् नक्षत्राणां प्रभावं निष्प्रभावीकृत्य गृहशान्तिद्वारा ऋणं लघुभागेन प्रत्यर्पितं भवति अतः शतरूप्यकाणां प्रत्यर्पणं पूरणं न भवति इति कारणेन प्रति अर्पणं निरन्तरं कर्तव्यं भविष्यति अस्तु तथा पूर्वं वयं पूर्वं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः मनुष्य कर्मणां प्रतिक्रिया यत् अस्ति तस्य निवारणार्थं बहवः प्रयासं करोति तान्त्रं ज्योतिष वा उपासना इति सहाय्यम् इति कृत्वा इति Uh, अनुभवति कि तस्य प्रति प्रतिक्रिया अनुभव निर्निवृत्ति आगच्छति किन्तु इति सदा न भवति कर्मफलस्य यत् प्रति कर्मफलस्य यत् अ भोगः अस्ति तस्य यत् फलं भवति तत् शीघ्रं भवेत् या विलम्बेन आगच्छेत् इति अ भवति एव किन्तु कदा भवती तस्य यत् भागं भवति भगिनी न श्रूयते केवलं मन्दं भवितुं शक्नोति किन्तु सम्पूर्णतया तस्य निवृत्तिः न भवति इति ये प्रयासं वयं कुर्मः यज्ञेन दानेन उपासनाया इति किन्तु यथा पूर्वं वयं दृष्टवन्तः यत् ऋणम् अर्धमान अर्धमान या ऋणं स्वीकरोति तत् दातव्यम् न दा दास्यति तत् तदा तेन भिन्नरूपेण दुःखम् आगच्छति मानसिकपीडा भवेत् वा कदापि यथा अग्रे आगच्छति तत्र बाहुभङ्गः भवति इति कुत्र फ्राक्चर् इति भवति तु कापि मानसिकपीडा वा शारीरिकपीडा इति तस्य भोगं भोगरूपेण आगच्छति यदि समाना राशि अनेके अनेकेषु लघुभागेषु प्रतिपर्यति तर्हि ऋणीनां सर्वथा पीडा न अनुभयति यदि वा ऋणं स्वीकृत्य लघुभागेन स ऋणं प्रतिदा दास् ऋण पूर्ति करोति तत्र पीडा इति इति न भवति अनुभवति सम्पूर्णं ऋणं ददाति एवं तान्त्रिकाभ्यासानां सहायेन दुःखस्य अवधिः वर्धते किन्तु अस्य परिमाणेन दुःखस्य तीव्रता तो अति दुःखम् तस्य अवधिः वर्धति किञ्चित् तस्य लिङ्गरिङ्ग् भवति इति भवति भगिनी दुःखस्य <ID> न इत्युक्ते इन्स्टाल्मेण्ट् रूपेण अनुभवम् अनुभवः भवति इत्युक्ते एकवारमेव हस्तस्य भङ्गः भवति हस्ते रोगः वा हस्तस्य भङ्गः नाशः भवति इति न परन्तु तत्र किञ्चित् किञ्चित् दुःखम् अनुभवति तत्र मे बि द ह्याण्ड् इस् गेटिङ्ग् स्क्राच् ओर् मे बि हि हिट् इस् ह्याण्ड् संवेर् इन् आफ़् द ह्याण्ड् द ह्याण्ड् कम्प्लीट्लि गेटिङ्ग् फ्राक्चर्ड् बै डूयिङ्ग् द ग्रहशान्ति दुःख इस्प्रेड् ओवर् अ पीरिड् आफ़् टैम् अस्तु तथा च गृहशान्तिकारणात् अर्थात् नक्षत्राणाम् प्रभावः निष्प्रभावीकृत्य प्रतिक्रियाणाम् कर्मफलानाम् अनुभव परिहृतः अथवा निरुध इति केनचित् दोषपूर्णनिष्कर्ष क्रियते यथा वयं पूर्वम् उक्तवन्तः नक्षत्राणाम् दृष्ट्वा गृहशान्ति कारणे गृहस्य तस्य प्रभावः यथा न भवेत् इति किमपि परि तत् परिहृतं के किमपि कार्याणि कारयति तत् इति सम्पूर्णतया तस्य अनुभवा यत् भवति तत् न अपगच्छति इति तु यत् नियमः अस्ति येन कर्म कृतं तेन एव तस्य कर्मफलम् अपि भोक्तव्यम् अस्ति यथा इदानीं भविष्यत्काले यथा इदानीं वयं दृष्टवन्तः बाहुभङ्गस्य मानसिकदुःखं सौलव्यं भवति ज्ञायते गृहशान्ति सायने बाहुभङ्गेन निवारयितुं शक्यते तो यदि कर्मफलस्य इति वयं निवृत्ति इष्टुं अस्माभिः निर्वृत्ति इष्टं केन प्रयास किन्तु तस्य फलम् इतोपि पूर्णतया अन अपगच्छति किन्तु मानसिकरूपेण वा बाहुभङ्गस्य वा केनापि अन्यरूपेण तस्य भो भोग भोग, भोग आगच्छति अस्माकं प्रति इति अस्ति आमामा समीचीनं भगिनि इतिते पूर्वं यद् तदेव तस्य विषये एव इतोपि विस्तारः अत्र अस्ति mm -hmm. कर्म कृतं चेत् कर्मफलम् अनुभोक्तव्यमेव तादृशनियमस्य परिवर्तनं न शक्यते परन्तु mm -hmm. मनुष्याः प्रयत्नं कुर्वन्ति इत्युक्ते वयं दृष्टवन्तः अस्माकं मनः एकः जतुकन्दक कन्दुकः एव अस्ति रबर् बाल् इव अस्ति तत्र यदा अवसाधनं यदा कर्म कुर्मः तदानीम् अवसाधनं भवति डिप्रेशन् मेन् वि तर्हि वय कर्मफलद्वारा त मनः पुनः पूर्व आकारं प्राप्नोति तादृशन् अथवा अवसाधनं गच्छति तदर्थमेव कर्प कर्मफलम् अस्ति कर्मफलद्वारा मनसः वर्धनं भवति कर्मफलद्वारा अस्माकं शिक्षणं भवति एतादृश अनुचितकर्म न कर्तव्यम् इति शिक्षणं भवति अस्माकं मनः अपि पूर्वावस्थां प्राप्नोति जनाः ये अवगच्छन्ति ते किं कुर्वन्ति इति चेत् तान्त्रिक तान्त्रिकाणां सहायं स्वीकुर्वन्ति अथवा पूजां कुर्वन्ति अथवा यज्ञ यज्ञं यज्ञं कुर्वन्ति तर्हि तद्द्वारा कर्मफलस्य कर्मफलस्य निवारणार्थं प्रयत्नं कुर्वन्ति ते अनुचरु अनुचितरूपेण ते चिन्तयन्ति यद् कर्मफलानां निवारणं भवति गृहशान्तिद्वारा इति ते चिन्तयन्ति वस्तुतः कर्मफलानां निवारणं कदापि न शक्यते येन पुरुषेण कर्म कृतं तेन कर्मफलम् अनुभोक्तव्यम् एव यतोहि मनसः अवसाधनं जातं तर्हि मनः पूर्वावस्थां कथं प्राप्नोति इति चेत् कर्मफलद्वारा एव कर्मफलद्वारा यत् दुःखं सुखं सः पुरुषः अनुभवति तदानीं मनः पूर्वावस्थां प्राप्नोति तर्हि गृहशान्तिद्वारा वयं किं कर्तुं शक्नुमः इति चेत् कर्मफलद्वारा यद्दुःखं भवति तादृशदुःखस्य तीव्रतां वयं मन्दं कर्तुं शक्नुमः इदानीम् एक एक एकवारमेव दुःखम् अस्माभिः अनुभोक्तव्यं कर्मफलस्य इति चेत् तादृशदुःखं वयं बहुभ्यः दिनेभ्यः वयम् अनुभोक्तुं शक्नुमः अथवा बहुभ्यः मासेभ्यः अनुभोक्तुं शक्नुमः अथवा बहुभ्यः वर्षेभ्यः अनुभोक्तुं शक्नुमः तादृश तादृशमेव वयं कर्तुं शक्नुमः यज्ञद्वारा अथवा गृहशान्तिद्वारा परन्तु अन्ततो गत्वा यद् दुःखम् अस्माभिः अनुभोक्तव्यं तत्तु एव यथा यः ऋणं स्वीकरोति त सः ऋणं ऋणस्य प्रत्यर्पणम् एकवारमेव दातुं शक्नोति अथवा बहु बहुवारं सः किञ्चित् किञ्चित् किञ्चित् किञ्चित् धनं सः प्रत्यर्पयितुं शक्नोति तर्हि किञ्चित् किञ्चित् किञ्चित् ददाति चेत् धनं तदानीं सः तादृशवेदनां न अनुभवति परन्तु तथापि किञ्चित् किञ्चित् वेदनाम् अनुभवति परन्तु बहुकालपर्यन्तं सः अनुभवति तादृशं वेदनां परन्तु एकवारमेव ददाति चेत् तत्र बहुधनं दातव्यं तर्हि तस्य क्लेशः भवति एकवारमेव एवं कर्मफलं यथा यथा नियमानुसारं वयम् अनु अनुभवामः तर्हि एकवारमेव अनुभवामः तर्हि इत्युक्ते अस्माकं कर्मफलं बा बाहो बाहोः इति अस्ति चेत् एकवारमेव भङ्गः भवति परन्तु तथा नास्ति तत्र गृहशान्ति शान्तिं कुर्मः तदानीं किं भवति इति चेत् बाहोः भङ्गः न भवति तत्र बाहौ तत्र कर्शनरोगः भवति वा अथवा तत्र इदानीं किञ्चित् वेदना भवति तर्हि किञ्चित् कालानन्तरं पुनः किञ्चित् वेदना पुनः किञ्चित् वेदना इति एवं रीत्या तत्र कालस्य अवधिः अवधिः तत्र वर्धते तर्हि तस्य दुःखं किञ्चित् किञ्चित् किञ्चित् किञ्चित् भवति परन्तु अन्ततो गत्वा यद् कर्मफलं तेन अनुभो तद् अनुभूयते एव तस्य निवारणं तु न शक्यते इति अस्माभिः अवगन्तव्यम् अतः तत्र अनेन किम् अवगन्तव्यम् इति चेत् सम्पूर्णतया दुःखस्य निवारणं न शक्यते तान्त्रिक अभ्यासद्वारा कर्मफलस्य निवारणं न शक्यते परन्तु जनाः एवं चिन्तयन्ति तान्त्रिकद्वारा कर्मफलानां निवारणं शक्यते इति एवं रीत्या चिन्तयन्ति तदर्थं प्रयासं कुर्वन्ति परन्तु तथा वस्तुतः नास्ति तथा नास्ति एतत्तु व्यर्थप्रयासः एव वस्तुतः अस्माकं वेदना या अनुभो वेदना अनुभोक्तव्या सा वेदना अस्माभिः अनुभोक्तव्या एव तस्य निवारणं न शक्यते इति एव उदाहरणद्वयेन अपि दत्तमस्ति लौकिक उदाहरणेन यथा तत्र ऋणस्य विषये उक्तम् अपि च मानसिक मानसिकवेदना इति तत्र बाहुभङ्गस्य विषये तत्र उक्तमस्ति एकम् सूत्रे सूत्राणि सन्ति एकसूत्रमस्ति तत्र दत्तमस्ति कर्मफल इति देशजाति देशकाल संस्का इति रूपेण कदा भवति इति आगच्छति एकसूत्रमस्ति अहं दृष्ट्वा अग्रिमे सप्ताहे वदामि आमामाम् आमाम् आमाम् इत्युक्ते तर्हि मनुष्यजीवैः मनुष्यैः कर्मफलानि कालाधारेण देशाधारेण अनुभोक्तव्यमेव आम् um, um, इति अस्ति तदस्ति ईश्वरः यः uh -huh, uh -huh. uh -huh, uh -huh. अस्ति तस्य कृते एतादृशकर्मफलानि न सन्ति ईश्वरः देशकाल अपरामृष्टः अस्ति अस्ति uh तद् -huh. अस्तु अत्र स्थगनं कुर्मः वा अस्तु भगिनि धन्यवादः नारायण राम इत्यस्य अर्थानि अहं सर्वेन जाना एकमेकमेव अहं जानामि पूर्वं यत्र अर्थाः अपि बहु सम्यक् सम्यक् सन्ति धन्यवादः भगिनि धन्यवादः नमस्कारः नमस्कारः